श्रीगणेशाय नमः श्रीमद्गणेशगिन्द्राचारवर्याय नमः सद्गुराजगणेशिन्द्राचार्याय नमः श्रीमद् नमः व्यास उवाच चतुरान् देवेश कृपया पर्यावद गीतान्दान्त्वं गणेशस्य सर्वाज्ञानविनाशिनीच एवमेव पुरा पृष्टः शौनकेन महर्षिणा ससूत कथया मास गीतां सूत उवाच अष्टादशपुराणोक्तमृतं प्राहितं मया ततो तिरसवत्पातुमिच्छाम्यमृतमुत्तमं येनामृतमयो भूत्वा मया ब्रह्मामृतञ यतः योगामृतं महाभागो तन्मे करुणयावद व्यासौ वाच अथ गीतां प्रवक्ष्यामि योगमार्गप्रकाशिनी नियुक्ता पृच्छते सूतराज्ञे गजमुखेन या वरेण्यौवाच विघ्नेश्वरमहाबाहो सर्वविद्याभिषाद सर्वशास्त्रात्वज्ञयोगं मे वक्तुमर्हसि श्रीमद्गान उवाच सम्यग्सिता राजन्मतिस्तेऽनुग्रहान् मम ऋणगीतां प्रवक्ष्यामि योगामृतमयी नृप न योगं योगमित्याहुर्योगो योगो न च श्रियः यो देर, योगो यः पितृमात्रादेर्न स योगो दराधिप यो योगो बन्धुपुत्रादेर्यष्टाष्टभूतिभिः स्व न स योगस्त्रिया योगो जगदद्भुतरूपया राज्ययोगश्च नो योगो न गजवादि योगो गजवादिभिः योगो नेन्द्रपदस्यापि योगार योगो योगार्थिनप्रियः योगो यः सत्यलोक्यस्य न स योगो मतो मम शैवस्य योगो नो योगो वैष्णवस्य पदस्य च Baptism, न योगो भूपसूर्यत्वं चन्द्रत्वं न कुबेदथा न मरत्वं न कालता न योगो न सारोभमता योगन्नानाविधं भूपो युञ्जन्ती ज्ञानि न सदं भवन्ति विदृषा लोके हिताहाराभिरेतसः लोकान् वशीकृतजगत्त्रयाः करुणाः पूर्णरतया च कांश्चन जीवन्मुक्ता हृदे मग्नाः परमानन्दरूपिणि निमील्याक्षिणि पश्यन्तः परं ब्रह्म हतिस्थितं ध्यायन्तः परमं ब्रह्म चित्ते योगवशीकृतं भूतानि स्वात्मना तुल्यं सर्वाणि गणयन्ति ते येन केनचिदाच्छन्ना येन केनचिदाहताः येन केनचिदाकृष्टा येन केनचिदाश्रिताः करुणाः पूर्णतया भवन्ति धरणीतले अनुग्रहाय भूतानां जितक्रोधा जितेन्द्रियाः देहमात्रभूतो भूप समलोष्टाश्मकाञ्जनाः एतादृशा महाभागाः श्युश्चक्षुर्गोचरात्रियो तमिदानीमहं वक्ष्ये सुनुयोगमनुत्तमं श्रुत्वायमुच्च ते जन्तुः पापेभ्यो भवसागरात् शिवे मतो मम अहमेव जगद्यस्मात् सृजामि पालयामि च कृत्वा नानाविधं वेषं संहरामि स्वलीलया अहमेव महाशक्तिरहमेवार्यमाप्रिय अहमेव महाविष्णुरहमेव सदाशिवः अहमेको नृणान्नाथो जातः पञ्चविदः पुरा अज्ञानान्मान्न जानन्ति जगत्कारणकारणं मत्तोग्निरापो धरणि मत्तःकाशमारुतौ ब्रह्मा विष्णुश्च रुद्रश्च लोकपालादिशोदश वसवो मनवो गावो भणयः पशवोऽपि चरितः यक्षा वृक्षा पक्षिगणा अपि तथैकविंशति स्वर्गा नागासप्तवनानि च मनुष्याः पर्वतः स्वाध्यासिद्धा रक्षोगणास्तथा अहं साक्षी जगच्चक्षुरलिप्तः सर्वकर्मभिः अविकारो प्रमेययोः अव्यक्तो अहमेव परं ब्रह्मा जयानन्दात्मकन्दृप मोहत्यखिलान् माया श्रेष्ठान्नुमदनान् नमून् सर्वदा षड्विकारेषु तानियं योजयदृशं हित्वाजापटलं जन्तुरनेकैर्जन्मभिषणैः विरज्यविन्दति ब्रह्मविषयेषु सुबोधतः अच्छेद्यं शस्त्रसङ्घातैरदायमनलेन च अक्लेद्यं भूपचवनैरशोषं मारुतेन च अवध्यं वध्यमानेऽपि शरीरेऽस्मिन्नरारिप यामिमां पुष्पितां वाचं प्रशंसन्ति श्रुतीतां त्रयिवादरता मूढास्ततो न्यन्मन्वतो कुर्वन्थततं कर्म जन्ममृत्युपलप्पदं स्वर्गैश्वर्यरताधस्तचेतना भोगबुद्धयः सम्पादयन्ति ते भूयः स्वात्मना संसारचक्रं युञ्जन्ति जडाः कर्मपरा नराः यस्य यद्विहितं कर्म तत्कर्तव्यमदर्पणं ततोस्य कर्मबीजानामुच्छिन्नास्युर्महाङ्कुराः चित्तशुद्धिश्य महती विज्ञानसाधका भवेत् विज्ञानेन हि विज्ञातं परं ब्रह्म मुनीश्वरैः तस्मात् कर्माणि कुर्वीत बुद्धियुक्तो न राधिपो न भवेत् कोऽपि स्वधर्मत्यागवान् तथा जहाति यदि कर्माणि आदौ ज्ञानेन अधिकारः कर्मण्येव प्रयुज्यते कर्मणा शुद्धहृदयो भेदबुद्धिमुपैशति स च योगः समाख्यातो मृतत्वाय हि कल्पति योगमन्यं प्रवक्ष्यामि तुनुगु पतमुत्तमं पशौ पुत्रे तथा मित्रे शत्रौ बन्धौ सुरञ्जने बहिर्दृष्ट्या च समया तथा हर्षे हर्षे भीतौ रोगाप्तौ चैव भोगाप्तौ च ये वा विजयेऽपि च श्रियो योगे च योगे च लाभालाभे मृतावति समो मां वस्तु जातेषु पश्यन्नन्तर्बहिस्थितं सूर्ये सोमे जले वह्नौ शिवे तथा निले द्विजे सदे महानद्यां तीर्थे क्षेत्रे घनाशिनि विष्णौ च सर्वदेवेषु तथा यक्षोरगेषु च गन्धर्वेषु मनुष्येषु तथा सीर्यभवेषु च सततमां ह्य पश्येत्सो योगविद्यतेहत्यस्वार्थेभ्य इन्द्रियाणि विवेकतः सर्वत्र समता बुद्धिः सयोगोमुपमे मतः आत्मनात्मा या बुद्धिर्दैवयोगतः स्वधर्मासक्तचित्तस्य तद्योगो योग उच्यते धर्माधर्मो जहा तथा त्यक्तभावपि अतो योगाय युञ्जीतयोगो वेदेषु कौशलम् धर्माधर्मफले त्यक्त्वा मनीषि वीतेन्द्रियः जन्मबन्धविनिर्मुक्तः स्थानं संज्ञात्मनामयं यदा यद् ज्ञानकालश्यञ्चन्तोर्बुद्धिक्रमिष्यति तदा सौयाति वैराग्यं वेदवाक्यादिषु क्रमात् त्रयी विप्रतिपन्नस्य स्थानोत्मज्ञास्यते यदा परात्मन्यचला बुद्धि सदा स योगमाप्नुयात् कामान्यदा धीमान् त्यजेत्प्रिय स्वात्मनि स्वेन सन्तुष्टः स्थिरबुद्धिस्तदोच्यते वितृष्णः सर्वसौख्येषु नोद्विग्नो दुःखसङ्गमे गतसाध्वसरुद्रागः स्थिरबुद्धिस्तदोच्यते यथायं कर्मठो अङ्गानि सङ्कोचयति सर्वतः विषयेभ्यस्तथाखानि संकर्षेद्योगतत्परः व्यावर्तन्ते विषयाश्च विना रागं च रागोऽपि दुष्का ब्रह्मा विनश्यति विपश्चिद्यत ते भूपस्थितिमा स्ताययोगिनः मन्थयित्रेन्द्रियाण्यश्च हरन्ति बलतो मुनः युक्तस्थानि वशे कृत्वा सर्वदा मत्रो भवेत् संयतानीन्द्रियाणीह यस्य सकृतधीर्मतः चिन्तयानस्य उपजायते कामः संवर्तते तस्मात् अतः क्रोधोऽपि ध्वंशात् स्मृतेर्मते ध्वंसस्तद्वंसात् सोऽपि नश्यति विना द्वेषञ्चरागंश्च गोचरान्यस्तु खैश्चरेत् स्वाधीनहृदयोगस्यैः सन्तोषं स समुच्छति किमिदस्यापि क्षेपणं भवेत् प्रज्ञया संशितश्चायं प्रसन्नहृदयो भवेत् विना प्रसादन्नमतिर्विनामत्या न भावना विनातान्न शमो भूपो विना तेन कुतः सुखम् इन्द्रियाश्वान् विचरतो विषयाननुवर्तते यन्मनस्तन्मतिं मरुद्यथा या रात्रिस्सर्वभूतानां तस्यान्निद्राति नैव सहा न स्वपन्ति हते यत्र सा रात्रिस्तस्या भूमिव सरिताम्पतिमायान्ति सर्वतो यथा आयान्ति तन्तिथा कामाः सनाशान्तिं हदा लभेद अतस्तानि ह संवृद्ध्य सर्वतः कानि मानवः स्वस्वार्थेभ्यः प्रधावन्ति बुद्धिरस्य स्थिरा सदा ममताहङ्कृति त्यक्त्वा सर्वान् कामान् श्रयस्तजेत् नित्यं ज्ञानर्तु भूयात् ज्ञानान् मुक्तिं स एनाम एनां ब्रह्मधियं भूपो यो विजानाति दैवतः शीलं मुक्तिं स ॐ तथदिति श्रीमद्गणेशगीतासुपलहृदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदाति श्रीमन्महागणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीमद्गजाननवरेण्यसंवादे साङ्ख्ययोगसारार्थयोगो नाम प्रथमोऽध्यायः मङ्गलमूर्तिमोर्या